अथ त्रयोदशोऽध्यायः वासुदेव उवाच नैतत्कृच्छ्रमनुप्राप्तो भवान् स्याद् वसुधाधिपा द्वारकायां स्यां राजन्सन्निहितः पुरा आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः आम्बिकेयेन वारयेयमहं द्यूतं बहून् दोषान् प्रदर्शयन् वैचित्रवीर्यम् राजानमलम् द्यूतेन कौरवा पुत्राणाम् तव राजेन्द्र त्वन्निमित्तमिति प्रभो तत्राचक्षमहम् दोषान् यैर्भवान्व्यतिरोपितः वीरसेन सुतो यैस्तु राज्यात्प्रभ्रंशितः अतर्कितविनाशश्च देवनेन विशाम्पते सातत्यम् च प्रसङ्गस्य वर्णयेयम् यथा तथम् स्त्रियोक्षामृगयापानमेतत्कामसमुत्थितम् दुःखम् चतुष्टयम् प्रोक्तं। यैर्नरो भ्रश्यते श्रियः तत्र सर्वत्र वक्तव्यम् मन्यन्ते शस्त्रको विशेषतश्च वक्तव्यम् द्योते तद्विदः एकाः द्रव्यनाशोऽत्र ध्रुवम् व्यसनमेव वाक्पारुष्यम् च केवलम् एतच्चान्यच्च कौरव्यप्रसङ्गिकटुकोदयम् द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् एवमुक्तो यदि मया गृह्णीयाद्वचनम् मम अनामयम् स्याद्धर्मश्च कुरूणाम् कुरु वर्धन न स मम राजेन्द्रगृह्णीयान्मधुरं वचः पथ्यं अथैनमपनीतेन सुहृदो नाम दुर्हृदः असान्निध्यम् तु कौरव्यममानर्तेष्वभूत्तदा येनेदम् व्यसनम् प्राप्ता भवन्तो द्यूतकारितम् सोऽहमेत्य कुरु श्रेष्ठद्वारकाम् पाण्डुनन्दना अश्रौषम् युयुधानाद्यथा तथम् श्रुत्वैव चाहम् राजेन्द्रपरमोद्विग्नमानसः तूर्णमभ्यागतोऽस्मि त्वाम् द्रष्टुकामो विषम्पते अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभा सोऽहम् त्वाम् व्यसने मग्नम् पश्यामि सहसोदरैः इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि वासुदेववाक्ये त्रयोदशोऽध्यायः